तावत्सर्वाभिसारेण पुरमेतद्विनाश्यताम् एतदत्र परं मन्ये प्राप्तकालं न रर्षभाः वैशम्पायन उवाच शकुनिर्वचनं श्रुत्वा भाषमाणस्य दुर्मतेः सौमदत्तिरिदं वाक्यं जगादपरमं परमं ततः सौमदत्तिरुवाच प्रकृतिः सप्त वैज्ञात्वा आत्मनश्च परस्य च तथा देशं च कालं च षड्विधांश्च नयेद्गुणान् स्थानं वृद्धिं क्षयं चैव भूमिं मित्राणि विक्रमम् समीक्ष्यथाभियुञ्जीत परं व्यसनपीडितम् ततोहं पाण्डवान् मन्ये मित्रकोशसमन्वितान् बलस्थान् विक्रमस्थांश्च स्वकृतैः प्रकृतिप्रियान् वपुषाहितुभूतानां नेत्राणि हृदयानि च श्रोत्रम् मधुरयावाच रमयत्यर्जुनो नृणाम् ना प्रजाभावेन भेजिरे यद्बभूव मनःकान्तं कर्मणा न्युक्त न चास नान्रृत नियम चारुभाषे भारतीुणसंपन्नापन्नाजलक्षण ना पशा श प्रभावशक्तिर्विपुला मन्त्रशक्तिश्च पुष्कला तथैवोत्साहशक्तिश्च पार्थेष्वभ्यधिका सदा मौलमित्रबलानां च कालज्ञो वै साम्नादानेन भेदेना दण्डेनेति युधिष्ठिरः अमित्रं यतते जेतुं न रोषेणेति मे मतिः परिक्रीयधनैः शत्रून्मित्राणि च बलानि च मूलं च सुदृढं कृत्वा हन्त्यरीन्पाण्डवस्तदा अशक्यान् पाण्डवान् मन्ये देवैरपि स वासवैः येषामर्थे सदा युक्तौ कृष्णसङ्कर्षणाबुभौ श्रेयश्च यदि मन्यध्वं मन्मतं यदि वो संविदं पाण्डवैः कृत्वा याम